श्रद्धजाग्निः स विध्यते श्रद्धजा विन्दते हविः श्रद्धाम्भगस्य मूर्धनी वचसा वेदजामसि प्रियज्ञश्रद्धे ददतः प्रियज्ञश्रद्धे दिदासतः प्रियम्भोजेषु यज्वसु इदम्ब उदितम् कृधि यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे एवम् भोजेषु यज्वसु अस्माकमुदितम् कृधि श्रद्धाम् देवा यजमानाः वायुगोपा उपासते श्रद्धागुम् हृदय्यजाकूत्या श्रद्धया हूजते हविः श्रद्धाम् प्रातर्हवामहे श्रद्धाम् मध्यन्तिनम् परी श्रद्धागुम् सूर्यस्य निम्बृचि श्रद्धे श्रद्धा पजे हवा श्रद्धा देवानधिवस्ते श्रद्धा विश्वमिदम् जगत् श्रद्धाङ्गामस्य मातरम् हविषावर्धजामसि ओम् शान्तिः शान्तिः शान्तिः